प्रजापतिरनिर्देश्यम् यस्य रूपं रवेरिव यम् स्म सोमः समारुह्य दानवान जयत्प्रभुः नवमेघप्रतीकाशम् ज्वलन्तमिव च श्रिया आश्रितौ तम् रथश्रेष्ठं शक्रायुधसमावुभौ दिधक्षन्निव तत्र संस्थितो मूर्ध्शोभत ध्वजे भूतानि तत्रासन् विविधानि महान्ति च नादेन रिपुसैन्याना येषाम् सञ्ज्ञा प्रणश्यति सतम् नानापताकाभिः शोभितम् रथसत्तमम् प्रदक्षिणमुपावृत्य दैवतभ्यः प्रणम्य च कवची खड्गी बद्धगोधाङ्गुलित्रकः आरुरोह तदा पार्थो विमानं सुकृती यथा तच्च दिव्यम् धनुः श्रेष्ठम् ब्रह्मणा निर्मितम् पुरा गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः हुताशनं पुरस्कृत्य ततस्तदपि वीर्यवान् जग्राहबलमास्थाय ज्यया च युयुजे धनुः मौर्व्याम् तु बलिना पाण्डवे ये शृण्वन् कूजितम् तत्र तेषाम् वै व्यथितम् मनः लब्ध्वा रथम् धनुश्चैव तथाक्षय्ये महेषुधि बभूव कल्यः कौन्तेयः प्रहृष्टसाह्यकर्मणि वज्रनाभम् ततश्चक्रम् ददौ कृष्णाय पावकः आग्नेयमस्त्रम् दयितम् स च भवत्तदा अब्रवीत् पावकश्चैव मेतेन मधुसूदन अमानुषानपिरणे जेष्यसि त्वमसंशयम् अनेन तु मनुष्याणाम् देवानामपि चाहवे रक्षः पिशाच दैत्यानाम् नागानाम् चाधिकस्तथा भविष्यसि न सन्देहः प्रवरोऽपि निबर्हणे